शरीरैरपरे दीप्तैर्देहवन्तैवाग्नयः अदृश्यन्तवने तत्र प्राणिनः प्राणिसंशये कांश्चिदुत्पततः पार्थ शरैः सञ्छिद्य खण्डशः पातयामास विहगान् प्रदीप्तेव सुरेतसि ते शराचितसर्वाङ्गानि न दन्तो महारवान् ऊर्ध्वमुत्पत्य निपेतु खाण्डवे शरैरभ्याहतानाम् च सङ्घश स्मवनौकसाम् विरावः शुश्रुवे घोर समुद्रस्येव मथ्यतः वह्नेश्चापि प्रदीप्तस्य खमुत्पेतुर्महार्चिषः जनयामासु ऋद्वेगम् सुमहान्तम् दिवौकसाम् तेनार्चिषासु सन्तप्ता देवाः सर्षिपुरोगमाः ततो जग्मुर्महात्मानः सर्व एव शतक्रतुं सहस्राक्षं देवे शमसुरार्दनम् देवावूचुः किं सर्वे दह्यन्ते चित्रभानुना कच्चिन्नसंक्षयः प्राप्तो लोकानामरेश्वर